मार्कण्डेयपुराणम् अध्यायं फैव् पक्षिण ऊचुः त्वष्टृपुत्रे हदे पूर्वं ब्रह्मन्निन्द्रस्य तेजसः ब्रह्मसत्याभिभूतस्य परा हानिरजायत तद्धमं प्रविवेशाथ चाक्रतेजोपचारतः निस्तेजाश्चाभवच्छक्रो धर्मे तेजसि निर्गते ततः पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः अवलुञ्च्य जटामेकामिदं वजनमब्रवीद् अद्य पश्यन्तु मे वीर्यम् त्रयो लोकास्सदेवताः स च पश्यतु पागशासनः पाकशासनः स्वकर्माभिरतो येन मत्सुतो विनपादितः इत्युक्त्वा कोपरक्राक्षो जडामग्नौ जुहावतां ततो वृत्रस्समुस्थौ ज्वालामाली महासुरः महागायो महादंष्ट्रो भिन्नाञ्चनचयप्रभः इन्द्रशत्रुरमेयात्मा त्वष्टृतेजोपभृंहितः अहन्यहनिसोवर्धदिषु पादं महाबलः वधाय चात्मनो दृष्ट्वा वृत्रं चक्रो महासुरं प्रेषयामास सप्तर्षोन्सन्धिमिच्छन्भयातुरः सक्यञ्चक्रुस्तदस्तस्य वृत्रेण समयांस्तधा ऋषयः प्रीदमनसः सर्वभूतहिते रताः समयस्थितिमुल्लङ्घ्य यदा शक्रेण खादितः वृत्रो हत्याभिभूतस्य तदा बलमशीर्यत तच्छक्रदेहविभ्रष्टं बलं मारुदमाविशद सर्वव्यापिनमव्यक्तं बलस्यैवाधिदैवतम् तच्चक्रदेहविभ्रष्टं बलमारुदमाविशत सर्वव्यापिनमव्यक्तं बलसैवाधिदैवतम् अहल्याञ्च यदा शक्रो गौतमं रूपमास्थितः दर्शयामास तदामहीयद अङ्गप्रत्यङ्गलावण्यं यदतीवमनोरमं विहाय देवेन्द्रं नासत्यावगमत्तदः धर्मेण तेजसात्यक्रं बलहीनमरूपिणं ज्ञात्वा सुरेशं तज्जे चक्रुरम राजा मुद्रिवी देंद्र विजिगीषव कुबला दैत्या अजाय महामुने क्यिध्य धरणी भारपीडिता जगाम मेरुशिखरं सदो यत्र दिवौकसां तेषां सा कथयामास भूरिभारावपीडितादनुजात्मजदैत्योद्धं खेदकारणमात्मनः ये दे भवद्भिरसुरा निषदाः मृधु जसहा ते सर्वे मनुषे लोके गेहेशु भूभृता अक्षण्योहि बहुलास्तारा व्रजा्यध तथा कुर्धं त्रिदशा पक्षिन मक्षिणचु तेजोभागैस्तदो देवा अवतेरुर्दिवो महीं प्रजानामुपकारार्थं यदिन्द्रदेहजं तेजस्तन्मुमोजस्वयं वृषः कुन्द्याजादो महातेजास्तदो राजा युधिष्ठिरः बलं मुमोच पवनस्तदो भीमो व्यजायत तस्चैव जज्ञे पार्थो धनञ्जयः उत्पन्नौ यमजौ माद्रयां शक्ररूपौ महाद्युती पञ्चधा भगवानिद्धमवधीर्नश्यदक्रदुः तस्योत्पन्ना महाभागा पत्नी कृष्णा हुदाशनाद शक्रस्यैकस्य सा कृष्णा नान्यस्य कस्यचिद् योगीश्वराशरीराणि कुर्वन्ति बहुलान्यपि पञ्चानामेकपत्नीत्वमित्येतत् कथितं तव श्रूयतां बलदेवोऽपि यथा यादः सरस्वतीम् इति श्रीमार्कण्डेयपुराणे इन्द्रविक्रिया नाम ओ